ध्यायामो सबलां तेजोमयीं नैतिं गतवती मन्द्यामृतवत्नी मधुरं सङ्कीर्तनालाभक्ति मधुरानन्दात्मितां हरि ॐ मृगेश्वरी नमो नमः मृदेशेश्वरी नमः ॐ मृगेश्वरी नमः म् त्वा गणपतिगुण् हवाहे कविम् कविनाम् तमश्रवस्तमम् ज्येष्ठराज्यम् ब्रह्मणाम् ब्रह्मण पत आनशृण्वन्नुतिभिः दीर्घसादनम् ॐ नमः देवी so we'll if you have a, a text that's good, if you have the Mantra दि मन्त्रपुष्पम् on page number 407. हण्ड्रेड् अण्ड् सेवेन् इन् दैत्रीयसंहिता तैत्रीय उपनिषत् I'll say once, you guys repeat twice. Om Bhoomer Bhoom Naam Om oh, Bhoomer Bhoom Naam Om Bhoomer Bhoom Naam Dyaur Vare Naam Dyaur Vare Naam Dyaur Vare Naam अन्तरिक्षम् अन्तरिक्षम् अन्तरिक्षम् महित्वा महित्वा महित्वा भूमिर्भूम्ना द्यौर्वरिणा भूमिर् भूमिना भूमिर्भूम्नान्तरिक्षं महित्वा अन्तरिक्षं महित्वा अन्तरिक्षं महित्वा भूमिर्भूम्ना द्यौर्वरिणान्तरिक्षम् महित्वा Is that okay? So everybody, that sentence? Yeah. Mm -hmm. Yeah. Okay. Yeah. Upasthete Upasthete Upasthete Devyadete Devyadete Devyadete अग्निमन्नादम् अग्निमन्नादम् अग्निमन्नादम् अन्नाद्यान्नाद्या अन्नाद्याधे yadadade yadadade upaste de te de devya dite upaste te devya dite upaste de devya dite Upas de de. Upas de अग्निमन्नादमन्नाद्या अग्निमन्मनान्नाद्या अद्या अग्निमन्नादमदमन अग्निमन्नादमन्नाद्यायाधे द लास्ट् धा इस् महाप्राणा ओके स्ट्राङ्ग् धा वन् बिफोर् द अल्पप्राणा इट्स् साफ्ट् धा ओके Manna Dyaaya Dhe. Dhe. Okay. Manna Dyaaya Dhe. Manna Dyaaya Dhe. Correct. Okay? Every word is okay? Yeah. Uh -huh. Yeah. Okay. Let us try the whole sentence. Upa Dhe Dhe. देव्यदिते अग्निमन्नादमन्नाद्यायादधे उपपदेते देव्य द्यदे यु आर् सेङ्ग् द से थिङ्ग् टुगेदर् इट्स्ट् अकारा इस् नाट् सेट् आफ्टर् दोस् इस् अकारो देव्य दिते अग्नि मन्नादाके नाट् सेट् ओके सो इण्ट् स्पृटिङ्ग् दग्नि मन्नाथ इस् करेक्ट् बट् इर् न सेङ्ग् इदर् बिकम् देव्यदिग्निमन्नाद आस् नाट् सेद् अग्नि आट् प्रोनौन्स् ओके देव्यदिदे अग्निमन्नादमन्नाद्या देव्यदिदे ओके देव्यन्नाद्यायादते टैम् दर्शन उपस्थेते देव्यदिग्निमन्नाद मन्नाद्याधे उपस्थेते लिटल् मोर् ईसियर् Devya Dede Gni Instead of you go say Devya Dede, then you, you cannot say the A. Uh, you have to say it, so it is an escape. So if you okay. stretch the de Devya Dede -de Gni, so it will be easier. Okay? Okay. Devya Dede Gni Manna Da. Okay? okay. Devya Dede Gni Manna Da. Correct. So it will be easier. Okay? okay in sanskrit all the ekara etc are all dirgha okay there is no short a this dirgha a okay okay oh yes yes yeah okay okay okay that the sentence is okay for everybody yeah yes yeah okay ayangau ayangau यं गौ पृष्णिरक्रमे पृष्णिरक्रमिरमेरक्रमिरमे दशनन्मातरम् दशननन्मातरणम् दशननसनातरम् punaha punaha unaha punaha dasanann materam punaha dasanann materam punaha dasanann materam punaha okay let's do the first part क्रमीक्रमी आसर्ग फलोड् बै अ पकार इल् बेगि आयङ्ग् ओके इस् लैकौण्ट् We'll read the whole sentence. Ayaṅkhaṁ prishni rakrami dasanan madaram punaha Ayaṅkhaṁ prishni rakrami dasanan madaram punaha Ayaṅkhaṁ prishni rakrami dasanan madaram punaha निक्रमे ओके दट् इस् ओके सेण्टेन्स् पितरं च पितरं च पितरतरा च प्रयन्सु वः prayam suvaha prayam suvaha pitarangcha prayamsu vaha pitarangcha prayamsu vaha pitarangcha prayamsu vaha that's easy right It's no problem yeah. There, correct yeah. yeah this is something okay. Okay. Next one. Tragam stadham. Rikam trigam stadham. Trigum stadham. Virajati. Virajati. Virajati te. Vaak पदङ्गाय वाक्पदङ्गाय शिश्रियेश्रिये शिश्रिये वाक्पदङ्गाय शिश्रिये गङ्गाय श्रिये गङ्गाय श्र फस्ट् पार्ट् तृगं श्रद्धाम विराजति तृगुं श्रद्धाम विराजति ृशं शब्दाम विराजति सन्दन् तृगं श्रद्धाम विराजति वाक्पतङ्काय शिश्रिये तृगं शतदाम विराजयति वाक्पतङ्काय शिश्रिये श्री इद ओके प्रत्ययस्य वः प्रत्यस्य व्यस्य प्रत्यस्युभिः ओके सो आून् द बिगिनिङ्ग्राविजल ॐ भूमिर्भूम्ना द्यौर्वरिणान्तरिक्षं महि त्वा उपस्थेते देव्यदिदेग्निमन्नादमन्नाद्यायादधे आयं गौः पृश्निरक्रमी दशनन्मातरम् पुनः पितरम् च प्रयन्सु वः त्रिघुंशद्धामविराजति वाक्पतङ्गाय शिश्रिये भूमिर्नायक्षं महि क्षं वाहित्वा उपमस्ते देयदे आयन् गौ प्रयवः प्रयम् शदधामराजति वा पदङ्गाय श्री प्रप्य वहदुभिः भूमि रूपम् नाना दौर्वरिणां मसे देव्यदिले मन्दिना मन्नाद्यायातते यङ्गौ कृष्णीरम्बतरम्बलावः त्रि त्रिदुषगतङ्गापि वाक्पदङ्गायति श्री ौर् वरिणा ओके द ्यौर्वूमूम्नात्यौर्वरिणान्तरिक्षं महित्वाद मन्याद्यायथे मन्नाद्यायादधे मन् मन्नाद मन्याद्यायादथे आयं करो निरक्मे दशनं मादलं पुनः स्तरं च प्रयस्तु वः गायति तस्युभिः ट् से आयङ्ग् प्रश्ने अक्रमि ओके आयङ्ग् दट् निसर्ग इ भूमिर्भूम्नाद्यौर्वीणान्तरिक्षं महित्वा उपस्ते देव्यदितेग्निमन्नाद मन्नाद्यायादते घे दास्ट् धे इस् वेरि स्ट्राङ्ग् धा ओके मन्नाद्यार ्रमीदसनन्मातरं पुनः पितरं च प्रयं सुवः स्तृगुं श्रम विराजति वाक्पदङ्गायशिश्रिये प्रत्यस्य वहदत् No, pratyasya vaha vaha oh. is is is, right, pratyasya vaha Oh okay, Okay Correct yeah okay. Because the vaha is then, the, the a different word than the he, Thats why it is. otherwise ुबिः लो is correct बिकोस्ट् वर्ड् okay. will be correct, okay? okay. okay who wants to try next algo okay om pomer phom na dhyau dvarina antariksham one second aitrik don't don't split the antariksham okay okay dhyau dvarina antariksham okay okay Even it is the oh. avakara, the akara is not pronounced because it is merged with the previous one, Okay? Om रिणान्तरिक्षं महित्वा उपस्थे ते देव्यदिते अग्निमन्नादमन्ना Same here also, okay? The, okay? okay? Okay. Okay. No, don't split the devya devya agni, अग्नि ओके उपस्थेते देव्यदिते Devya ओके agni देव्यदिते अग्निमन्ना डोन्ट देव्यदिते अग्निमन्नाद्याया दधे आयङ्गौः कृष्णिरक्रमी दसनन्मातरम् पुनः पितरम् च प्रयन्तु विराजति त्रिगुंशत्थामविराजति वाक्पतङ्गायशिश्रिये प्रत्यस्य वहद्युभिः We have been practicing for a while, that's why I'm just making these small points, okay? Because, you know, we have to be okay. learning not to split there when it's written, when you're chanting, okay? That's why. Okay, who wants to try next? I'll go next, Heidi. Okay, go ahead. Om Bhumir Bhuna Daurvai Lathari. No, Bhumna, Lathari. Bhumna, not Bhuna, okay? Bhumna. भूमिर्भूम्ना वरिणान्दरीक्षम् महित्वा उपस्ते देव्यदिते निमन्नाद आयङ्गौ पृश्निरक्रमिदशनन्मातरम् पुनः पितरम् च प्रयन् वाक् ۚ dzīyān suvaha ۱ trikam saddhāma verajadi vāk padangāya sisriye pratyasya vahadyum bihi vahadyu bihi correct, good who wants to try next? I can go, Hariri okay, go ahead ्यौर्णान्तरिक्षं महि अन्तरीक्षम् अन्तरिक्षम् इट् अन्तरीक्षं इरीक्षम् अन्तरीक्षे ओम् भूमिर्भूं नाद्यौर्वन्तरि हित्वा उपस्थेते देवति तेऽग्निमन्नादमन्नाद्यायादथे आयङ्गः प्रश्निरक्रमेदशनन्मादरं पुनः इतरं च प्रयन्सु वः त्रिगुंशत्थामविराजति पाक् पतङ्काय <laughs> तरं पुनः पितरं च प्रयन् सुमहाय ॐ भूमिर्भूम्नाद्योर्वरिणान्तरिक्षं महित्वा उपस्थेते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे आयङ्गः पृश्निरक्मीदसनन्मातरं पुनः पितरं च प्रयं सुः त्रिगंशत्थाम विराजति वाक्पतंगाय शिश्रीये प्रत्यस्य वहद्युविहि गुड ट्राई टू बी ऑन द सेम स्पीड ओके सम वर्ड्स यू नो सम टाइम्स डोंट गो फास्ट देयर इवन दो यू नो यू कैन रीड द वर्ड्स faster ओके सेम ऑल लेटर्स टेक द सेम टाइम ओके ओके सो Uh, even though you might you might be familiar don't go faster there that's all for example say prishnirakrani dahanan madaram punaha nishadasanan madaram punaha all of them will take the same time okay? okay okay yeah don't go fast just go slowly taking the same time for all letters good you can read devanagari so it goes faster sometimes right that's why But who who is next? Her bladder? Be so. Yeah. Okay. Okay, let's try the next part. Asya pranada. Asya pranana. प्राणादपानत्य प्राणादपायपा प्राणाद पापाय अस्य प्राणा पाद अन्तश्चरति अन्तश्चरति तश्चरति अन्तश्चरति प्राणादपानत्यन्तश्चरति Pranatha Panathyaan Tashkarati Pranatha Panathyaan Tashkarati Okay? All the words are okay? Yeah. yeah. Okay. We'll try the whole sentence. Asya Pranatha Panathyaan Tashkarati न्तश्चरति रोचना अस्य प्राणान्तश्चरति यन्तश्चरति रोचना ओके दत्सन्त व्यख्यन् महिषः व्यख्यन् महिषः व्यक्षन् महिषत्सु वः व्यख्य चन् महिष yad yeah. yun mahil subaha yeah. yeah. that yeah. okay that sentence yeah yeah yeah okay Kay. okay the so next one yetva krudaha yetva krudaha टु लैन् एक्स्टेण्ड् दि स्वराबल् सो यत् वा आकारीटेड्वा स्वाधुना परोना परो वपमन्युना Yadavartya, Yadavartya, Yadavartya, Yadavartya, Yadavartya, All the words are okay? Yes. होल्ड् अन्ते युना यद् यत्त्वा कृदपरोमन्युना यद्वत्या yad tvā aro bharpavapamanyu nāyada vartyā same thing here visarga followed by akara becomes cruddharo okay cruddharo yeah. bharpavapamanyu na cruddharo bharova pamanyu na okay yeah. ल्टि अल्से रिपीट् दिस् टैके ुना ओके सुकल्पमग्नेकल्पमग्नि सुकल्पमग्नि तत्तव पुनस्त्व पुनस्त्व दीपयामसि पुनः पुनस्त्वो दीपयामसि पुनस्त्वो दीपयामसिबल् दगारा ओके पुनस्त्व दीप दकारा इस्तु पुनस्त्व दीपयामसि पुनस्पनस्तु दीपयामसि पुनस्वोद्दीपयामसिद्धीपयामसिकल्पमग्ने तव पुनस्त्वमसिकल्प कल्पमग्ने तत् बोधं दीपयामसि कल्पमग्ने तत् पुनः पयामसि नेक्स्ट् वन् यत् तस्युपरो यत्ते मन्युपरो पृथिवी मनुदग्ध्वसे Pṛti Vee Manu Dabdhva Se Pṛti Vee Manu Dabdhva Se Okay? One words? Dabdhva Se Dabdhva Se, okay? Dabdha is also Mahaprahmah Dabdhva Se Let's try the whole sentence परो तस्य पृथिवी मनो दध्वसे आदित्या विश्वे े आदित्या विश्वे तदेवासवश्च तस्तेवासवश्च तरसदेवा वसवश्च समाभरन् ओके ओके होल् सेण्टेन्स् आदित्या विश्वे तद्देवा बसवश्च समाभरन् आदित्या विश्वे तद्देवासवश्च समावरम् आदित्या विश्वे तद्देवासवश्च समावरम् ओकेण्टेन् ओके सो देन् आल् डू द सेकेण्ड् हाफ् होल्ति अस्य प्राणादपानत्यन्तश्चरति रोचना व्यख्यन्महिषत्सु वः कियत्वा आ कृद्ध पर सुकल्पमग्ने तत्तव पुनस्त्वोदीपयामसि यत्ते मन्युपरोक्तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्धेवावसवश्च समाभरन् अस्य आज, णदापानत्यन्तश्चरतु रोचनाम् यद्यन् महेक्षसु वः यद्यनाइ यद्वत्या कल्प अग्नि सोधी यत् ते मन्युपरोक्तस्य पृथिवी मनु आदित्या विश्वे श्चन् अस्य प्राणदाकानत्यन्तरसि लोचना व्यत्यन् महिषस् सुवः यत् स्वादपरो बमन्युना यद्वत्या सुकल्पमग्ने तत्तद् मनस्पयो दीपयामसि यद्यते मन्युपरो नृतुहि लाट् आफ़् मिस्टेक् प्रक्टी it is taught the first time when does being once and such a time nobody had problems then he put the whole thing together then uh, yeah then it's uh, really yeah <laughs> <laughs> real. because you are splitting and teaching so it is easy that time when you No but we said the words and then together right it's not like, uh, yeah, yeah you can understand very nicely when you split then uh, it's easy because it's small small sentence but when you read the paragraph then okay just get stuck yeah don't do, do uh, one sentence at a time okay? you don't have to read the whole paragraph you just one sentence one sentence one sentence so. okay who wants to try it on their own i can try okay go ahead okay asya prana da pa prana prana da panatyan tas चरति प्रोचनादपानत्यन्तश्चरति महिषस्सुवः यत्वा परूपपमन्युना यद्त्याकल्पमग्ने तत्तव पुनस्पुनोद पुनस्बोदी पुनस्त्वोद्दीपयामसि यत्ते मन्यु पृथिवी मनो दद्वसे आदित्या विश्वे तद्देवा वसवश्च समावरन् गो नेक्स्ट् हिषसु वः यत्त्वा आ क्रुद्धपरोवपमन्युना यदवर्त्या सुकल्पमग्नि तत् ीपयामसि यत्ते मन्युपरोत्पस्यध्वसे मनुदध्वसेव आदित्या विश्वे तद्देवा वसवश्च Samaa-baran. Good. Who is next? I can try. Okay. Asya prana-da-panat-panat-tyanta-sariti-rochana Vyakhen Mahishasuvaha Vyakhen. Vyakhen. The Kha is the second Kha. Kha-kha. Okay. Vyakhen yeah. Mahishasuvaha जन्महि श्व यत्त्वा आहृति परोम अन्युनाय दवत्याकर्पमी तत्तव पुनस्त्वयामसि तत्ते मन्युपरोत्त परोक्तस्य पृथिवीमन्यु तुसे आदित्य ेव आदित्या विश्वे आदित्या विश्वे तदेव आदित्या विष्वे विश्वे तद्देवासवश्च समाफरणे तद्देवा दीर्घे तद्देवा बसवश्च अजियर्गा तदेवा वसबस्च लवाइ अदियो विष्वे तदेवा वसबस्च बबशेवाइ वसबस्च समाधड़श्च समाधड़श्च को Who is next? I can go. Okay, go ahead. अश्यप्रानाद पनत्यन्त्यन्त चरति रोचना व्यक्षन् महिषः सुः यत्त्वा आक्रुद्धः परो वपमन्युना यदवर्त्या सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि यत्ते मन्युपरो तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्देवासवश्च समाभरन् अस्य प्राणादस्य महिष सुभः ुना यदवर्त्या सुकल्पमग्ने सप्त पुनस्तोद्दीपयामसि यत् ते मन्युपरोक्नुपरो अस्य प्राणादपानत्यन्तश्चरतिरोचना व्यख्यन्महिष सु वः यत्त्वा सुकल्पमग्ने तत्तव पुनस्त्वोदीपयामसि पुनस् तोमसि दीपयामसि पुनस्त्वद्धि डबल् दगारा पुनस्त्वमसि पुनस्थोयामसिबल् औट् आल्सो दीपयामसिनस्तो दीर्घ पुनस्थोधीपयामसि यत्ते यत्ते मन्युपरोक्तस्य पृथिवीमनुध्वसे आदित्या विश्वे तद्देवावन्वसवश्च समाभरन् Who wants to try next? Oh, I can. Okay, अस्य प्राणान्तश्चरति रोचनां व्यख्यन्महिष सुवः यत्त्वा आ क्रुद्धः परोवपमन्युना यदवर्त्या सुकल्पमग्ने तत् पुनस्तवो यत्ते मन्युपरोक्तस्य पृथिवी मनुदध्वसे आदित्या विश्वे तद्देवा वसवश्च समाभरन् Anybody else? Everybody is done, right? No. Yes. Okay. So let's do one more one time. We'll do from beginning to end together. Okay? Okay. Ready? Okay. okay. One, two, three. Om Bhoom Hrubhum Nantyaurvari Nantarik. उपस्ते य श्रीमन्नादमुनाद्याय आयायं कौ श्रीरक्रवि पितरकरं प्रयुवः ृघुंसमीराजी वायशिश्रियेश्रिये प्रत्युभिः स्युभिः अस्य समाणा अत्यन्तरति रोचना व्यख्यन् महिषत्पशः यत्त्वा अपरो यदमत्या यदवत्या सुकल्पल्पुनयामसि दीपयामसि यद्यस्य पृथिकम् मनुदत्व गुड् ओके सो विस्ट् विल् प्रेक्टिस् इण्डिविज्य दोल्के ओके सो लेट् डू त्री लोक स्टोप् डे ॐ लोकाः लोकाः पम्पाः सुखिनवन् भवन्तु लोकाः सुखिनवन् भवन्तु लोकाः पम्पाः लोकिनवन् भवन्तु Om shanti shanti shanti sri guruv charanamah namah hari hari om